कान्तः कन्दुकगे लघ्रिकमल व्यत्यस्तनृत्यक्रमै राग व्यत्यस्तनृत्यक्रमै स्वीयम् अपात् करिष्णुरपि हाययादिष्टेद मह्योङ् कदा औत्सुख्यादि अनुरञ्जनादि अनुपदस्पर्शादपि अनुप्राव्य आश्रिष्येति अनुरालयेति अनुवदे अनन्दयोद्रा कदा मन्तु निन्दतु चिन्तनचलमरुत् जालीव केली सुखी कान्तो अरुन्तु तचुम्बुच्चरतु हा कामोऽपि भीमायताम् किं वक्ष्यामि कथं कठोरविरगे सन्तप्तया जन्मया श्रीतांशुः मम जन्मवंशकुरुरपि जन्म अतीव वैराजते राजते